श्रीमहागणपतिमङ्गलमालिकास्तोत्रम् श्रीकण्ठप्रेमपुत्राय गौरी वामाङ्कवासिने द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् आदिपूज्याय देवाय दन्तमोदकधारिणे वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च श्रीमते गजगन्नाय श्रीगणेशाय मङ्गलम् द्वै मातुराय हेरम्बाय महात्मने विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् कृष्ण्यशृङ्गायाजिताय क्षिप्राभीष्टार्थयिने सिद्धिबुद्धिप्रमोदाय श्रीगणेशाय मङ्गलम् विलम्बि यज्ञसूत्राय सर्वविघ्ननिवारिणे दूर्वादळसुपूज्याय श्रीगणेशाय मङ्गलम् महारायाय भीमाय महासेनाग्रजन्मने त्रिपुरारिवरोद्धात्रे श्रीगणेशाय मङ्गलम् सिन्दूररम्यवर्णाय नागबद्धोदराय च आमोदाय प्रमोदाय श्रीगणेशाय मङ्गलम् विघ्नहर्त्रे दुर्मुखाय विघ्नहत्रे शिवात्मने सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् समस्तनाथाय विष्णवे धूमकेतवे प्रियक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने वक्रतुण्डाय पूजाय श्रीगणेशाय मङ्गलम् धुण्डिरे कपिलाख्याय श्रेष्ठाय ऋणहारिणे उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मङ्गलम् द्विदेहाय भक्तेष्टद विनायकाय विभवे श्रीगणेशाय मङ्गलम् सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने पटवे लोकगुरवे श्रीगणेशाय मङ्गलम् श्रीचामुण्डा सुपुत्राय प्रसन्नवदनाय च श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् श्रीचामुण्डाकृपात्रश्रीकृष्णेन्द्रविनिर्मितां विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनी श्रीमहागणनाथस्य शुभां मङ्गलमारिका यः पठे सततं पाणिं लक्ष्मीं सिद्धिमवाप्नुयात् श्रीमहागणपतिमङ्गलमारिका स्तोत्रम् सम्पूर्णम्